गुरवे सर्वलोकानाम् विषे भवरोगिना निधये सर्वविद्यानाम् दक्षिणामूर्तये नमः अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॐ नमो भगवते दक्षिणामूर्तये मह्यम् मेधा प्रज्ञा प्रयच्छ स्वाहा